बालमोदिनी कथा नाम भवता कतिप्राहाराः प्राप्येयन् कश्चन राजा महत ऐश्वर्यं तस्य तस्य प्रासादे सर्वत्र मणिमाणिक्यादीनि शोभन्ते जगति अत्युत्कृष्टानि वस्तूनि यानि स्युः तानि सर्वाणि आसन् राज्ञः प्रासादे कदाचित् राज्ञः शय्यागृहस्य स्वच्छतायै काचित् सेविका गता राज्ञः शय्या नितरा मृदुला स्थूला सा सेविका परितः अपश्यत् समीपे कोऽपि तया न दृष्टः सा मन्दं शय्याम् आरूढवती महान् हितानुभवः प्राप्तः तया तत्रैव नेत्रे निमीलितवती सा अचिरातेव एव तया निद्रा प्राप्ता अल्पे एव काले राजा राज्ञी च तत्र आगतो। राजशय्यायां सुखेन शयनं सेविकां दृष्टवतः राज्ञः कोपः नितरां प्रवृद्धः सः आच्छादकम् आकृष्य क्षिप्त्वा सेविकां जागरितवान् प्रांता सेविका कियत् कालं शय्यायां सुप्तं स्यात् मिश्रितेन स्वरेण एव प्रायः अर्धघण्टां यावत् राज्ञी अवदत् धन्नाम अनया त्रिंशन्निमेषान् यावत् अत्र शयनं कृतम् अतः त्रिंशता कषाप्रहारैः दण्डयति एषा इति वदन राजा कषाम् प्रहारं प्रहारम् आरब्धवान् प्रथमप्रहारेण एव सेविकायाः शरीरात् अपि सेविका, उच्चे आहसत। राजा, तता सेविका याहा राजा यता यता उच्च अहसत्तर हास एतद् दृष्ट्वा महत् आश्चर्यम् अनुभवन् राजा अपृच्छत् अहं तु त्वां कशया प्रहरन् अस्मि त्वं तु हससि किमर्थम् एतत् इति तथा सेविका अवदत् त्रिंशन्निमेषान् यावत् अस्याम शय्यायां शयनं कृतवत्या मया त्रिंशत् कषाप्राहाराः प्राप्ताह। भवता तु बहोः कालात् अत्र शयनं क्रियते एवं स्थिते भवता कियन्तः प्राहाराः प्राप्नुयन् इत्येतत् स्मरत्य मया हासः हा प्राप्तः अहमस्मि राजा माम खोवा प्रहर्तुम प्रहर्तुम् अर्हेत् एव अपृच्छत् राजा भवान् राजा अस्ति किम् प्रजानां दुःखकष्टक्लेशादीनां निवारणं राज्ञः कर्तव्यम् तत् अकृत्वा भवान् भोगिनीरतः अस्ति प्रजाहातु अनेक विदानि कष्टानि अनुभवन्ति प्रतिदिनम् अतः भवान् दण्डनार्हः एव भगवान् एव भवन्तं दण्डिष्यति राग्यह हस्ते स्थिता कषा भूमौ अपतत् तस्मात् दिनात् सः प्रजानां कष्टनिवारणे दत्तावधानः जातः